ष्टषष्टितमः सर्गः रामः प्रेक्ष्यतु तम् गृध्रम् भुवि प्राणाम् स््यजति मत्कृते अतिखिन्नः प्राणो लक्ष्मण विद्यते तथा स्वरविहीनोऽयम् विक्लवम् समुदीक्षते जटायो यदि शक्नोषि वाक्यम् व्याहरितुम् पुनः सीतामाख्या हि भद्रन्ते वधमाख्या चात्मनः किन्निमित्तो जहार्याम् रावणस्तस्य किम् मया अपराधम् तु यम् दृष्ट्वा रावणेन हृता प्रिया कथम् तच्चन्द्रसङ्काशम् मुखमासीन्मनोहरम् सीतया कानि चोक्तानि तस्मिन् काले द्विजोत्तमा कथम् वीर्यः कथम् रोपः किम् कर्मा स च राक्षसः क्वचास्य भवनन्त त्रूहि मे परिपृच्छतः तमुद्वीक्ष्य स धर्मात्मा विलपन्तमनाथवत् वाचा विक्लवया राममिदम् वचनमब्रवीत् सा रावणेन दुरात्मना मास्था विपुलावात दुर्दीन सकुला पैक्लात पक्षि निशाचर सीताय वैदे प्रयात दक्षिणा मुखा उपरु्यं मे प्राण दृष्टिभ्रमति राघव पश्या वृक्षा सौवर्णनुशीरकृतमूर्धज येन या मुहूर्तेन सीताय रावण विप्र नष्टम् धनम् क्षिप्रम् तत्स्वामी प्रतिपद्यते बिन्दो नाम मुहूर्तोऽसौ न च काकुत्स्थसोऽबुधत् त्वत्प्रियाम् जानकीम् हृत्वा रावणो राक्षसेश्वरः झष वद्बडि क्षिप्रमेव विनश्यति न व्यथाकार्या जनकस्य सुताम् प्रति वैदेह्यारंस्यसे क्षिप्रम् हत्वा तम् असम्मूढस्य गृध्रस्य रामम् प्रत्यनुभाषतः आ स्यात् शुश्रावरुधिरम् म्रियमाणस्य सामिषम् पुत्रो विश्रवसः साक्षाद्धाता वैश्रवणस्य च इत्युक्त्वा दुर्लभान् प्राणान् ममोचपतगेश्वरः ब्रूहि ब्रूहीत रामस्य ब्रुवाणस्य कृताञ्जलेः त्यक्त्वा शरीरम् गृध्रस्य प्राणा जग्मुर्विहायसम् स निक्षिप्य शिरौ भूमौ प्रसार्य चरणौ तथा विक्षिप्य च शरीरम् स्वम् पपातधरणीतले तम् गृध्रम् प्रेक्ष्यताम् राक्षम् गता सुमचलोपमम् रामस्व बहुभिर्दुःखैर्दीनः सौमित्रिमब्रवीत् बहोनिरक्षसाम् वासे वर्षाणि वसता सुखम् अनेन दण्डकारण्ये विशीर्णमिह पक्षिणा अनेकवाषि यस्रकालत्त्थि सोयमदत कालो हि दुतिक्रम पश्यलक्ष्मणगृध्रोयुपी हत मे सीतावपन्नो हिरावन बलीयसा गृध्रराज्य पितज्य दृपयताह महत् मम हेतोरयम् प्राणान्ममोचपतगेश्वरः सर्वत्र खलु साधवो धर्मचारिणः शूराः शरण्या सौमित्रे तिर्यज्ञो निगतेष्वपि सीताहरणजम् दुःखम् न सौम्य तथा यथा विनाशो गृध्रस्य मत्कृते च परम् तप राजा दशरथ श्रीमान्यथा मम महायशाः पूजनीयश्च मान्यश्च तथायम् पतगेश्वरः सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम् गृध्रराजम् दिधक्ष्यामि मत्कृते निधनम् गतम् नाथम् पतगलोकस्य चितिमारोपयाम्यहम् इमम् धक्ष्यामि सौमित्रे हतम् रौद्रेण रक्षसा या गतिर्यज्ञशीलानामाहिताग्नेश्च या अपरावर्तिना याचयाच या च भूमिप्रदायिना समनुज्ञातो गच्छ लोकाननुत्तमान् गृध्रराज महासत्त्वसंस्कृतश्च मया व्रज एवमुक्त्वा चिताम् दीप्तामारोऽप्यपतगेश्वरम् ददाह रामो धर्मात्मा स्वबन्धुमिव दुःखितः रामोऽथ सः सौमित्रिर्वणम् गत्वा सवीर्यवान् स्थूलान्हत्वा महारोहीननु तस्तारतम् द्विजम् रोहिमांसानि चोद्धृत्यपेशीकृत्वा महायशाः शकुनाय ददौ रामो रम्ये हरितशाद्वले यत्तत्प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः तत्स्वर्गगमनम् पित्र्यम् तस्य रामो जापः ततो गोदावरीम् गत्वा नदीम् नरवरात्मजौ उदकम् चक्रतुस्तस्मै गृध्रराजाय ताबुभौ शास्त्रदृष्टेन विधिना जलम् गृध्राय राघवौ स्नात्वा तौ गृध्रराजाय उदकम् चक्रतुस्तदा स गर्ध्रराजः कृतवान् यशस्करम् सुदुष्करम् कर्म रणे निपातितः महर्षिकल्पेन च संस्कृतस्तदा जगाम पुण्याम् कृतोदकौतामपि पक्षिसत्तमे च बुद्धिम् प्रणिधाय जग्मतुः प्रवेश्य ततो मनोवनं सुरेन्द्राविव विष्णुवासवौ इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे अष्टषष्टितमः सर्गः